अथ पञ्चविंशः सर्गः अथ तासाम् वदन्तीनाम् परुषम् दारुणम् बहु राक्षसी नाम सौम्यानाम् रुरोदजनकात्मजा एव मुक्तातु वैदेही राक्षसीभिर्मनस्विनी उवाच परमत्रस्ता बाष्पगद्गदया गिरा न मानुषी राक्षसस्य भार्या भवितुमर्हति कामम् खादत माम् सर्वा न करिष्यामि वो वचः साराक्षसीमध्यगता सीता सुरसुतोपमा न शर्मले रावणेनेव भर्त्सिता वेपतेऽस्माधिकम् सीता विशन्ती वाङ्गमात्मनः वने यूथ परिभ्रष्टा मृगी सा विपुलाम् शाखा मालम् य पुष्पिता चिन्तयामास भर्तारम् भग्नमानसा सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति सा वेपमाना पतिता प्रवाते कदली यथा राक्षसीनाम् भयत्रस्ता विवर्णवदनाभवत् तस्याः सा दीर्घबहुलावेवम् चा सीतया तदा ददृशेकम् पिता वेणी व्यालीव परिसर्पती सा निःश्वसन्ती शोकार्ता कोपोपहतचेतना आर्ता व्यसृजदश्रूणि मैथिली विललाप च हारामेति च दुःखार्ता हा पुनर्लक्ष्मणेति च आश्वश्रूर्मम कौसल्ये हा सुमित्रेति भामिनी लोकप्रवादः सत्योऽयम् पण्डितैः समुदाहृतः अकाले दुर्लभो मृत्युस्त्रिया वा पुरुषस्य वा यत्राहमाभिः क्रूराभि राक्षसीभिरिहार्दिता जीवामिहीना रामेण मुहूर्तमपि दुःखिता एषा कृपणा विन समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता धर्तारम् तमपश्यन्ती राक्षसी वशमागता सीदामि खलु शोकेन कूलम् यथा तम् पद्मदलपत्राक्षम् सिंहविक्रान्तगामिनम् धन्याः पश्यन्ति मेनाथम् कृतज्ञम् प्रियवादिनम् सर्वथा तेन हीनाया रामेण विदितात्मना तीक्ष्णम् विषमिवा स्वाद्य मम जीवनम् कीदृशम् तु महापापम् मया देहान्तरे कृतम् प्राप्यते घोरम् महादुःखम् सुदारुणम् जीवितम् त्यक्तुमिच्छामि शोकेन नमहतावृता। राक्षसी राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया धिगस्तु खलु मानुष्यम् धिगस्तु परमश्यता यत्परित्यक्तुमात्मच्छन्देन जीवितम् इत्यादशे श्रीमद् रामायणे वाल्मीकिये आदिकाव्ये सुन्दरकाण्डे पञ्चविंशः